ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं तर्टित्रि कक्षान्तरकथनं हयग्रीव उवाच कथितं सप्तशालानां लक्षणं शिल्पिभिकृतम् अधरत्नमयाशालाः प्रकीर्त्यन्देवधारय सुवर्णमयशालस्य पुष्परागमयस्य च सप्तयोजनमात्रं स्यान्मध्येन्दरमुदादृतं तत्र सिद्धासिद्धनार्यःखेलन्दि मदविह्वलाः रसैरसायनैश्चापि खड्गैः ललितायां भक्तियुक्तास्तर्पयन्तो महाजनान् वसन्धिविविधास्तत्र पिबन्दि मदिरारसान् पुष्परागादिशालानां पूर्ववद्वारक्लृप्तयः पुष्परागादिशालेषु कवाडार्गलगोपुरं पुष्परागादिजं ज्ञेय मुच्चेन्द्वादित्यभास्वरम् हेमप्राकारचक्रस्य पुष्परागमयस्य च अन्तरे यास्वलीतापि पुष्परागमयी स्मृता वक्ष्यमाणमहाशालाकक्षासु निखिलास्वपि तद्वर्णाः पक्षिणस्तत्र तद्वर्णानि सरांसि च तद्वर्मसलिलानद्यस्तद्वर्णाश्च मणिद्रुमाः सिद्धजादिषु ये देवीमुपास्य विविधैक्रमै त्यक्तवन्दो वपुः पूर्वं ते सिद्धास्तत्र साङ्गनाः ललितामन्त्रजप्तारो ललिताक्रमतत्पराः ते सर्वे देव्या ललितादेव्या नामकीर्तनकारिणः पुष्परागमहाशालान्तरे मारुदयोजने पद्मरागमयशालश्चदुरस्रसमन्ततः स्थलीजपद्मरागाढ्या गोपुराद्यं च तन्मयं तत्र चारणदेशस्ताः पूर्वदेह विनाशतः सिद्धिं प्राप्ता महाराज्ञी सेवकाः चारणीनां स्त्रियश्चापि चार्वङ्ग्यो मदलालसाः गायन्ति ललितादेव्या गीदिबन्धान्मुहुर्मुहुः तत्रैव कल्पवृक्षाणां मध्यस्थवेदिकास्थिताः भर्तृभिः सहचारिण्यपिबन्ति मधुरं मधु पत्मराग पद्मरागमहाशालान्तरे मरुदयोजने। गोमेदकमहाशालपूर्वशाला समाकृतिः ही अदितुङ्गो हीरशालस्तयोर्मध्ये च हीरभूः तत्र देवीं समभ्यर्च्य पूर्वजन्मनि कुम्भज वसन्ध्यप्सरसं वृन्दैः साकं गन्धर्वपुङ्गवाहा ज्ञी गुणगणान् कायन्तो वल्लगीस्वनैः कामभोजैकरसिखा कामसन्निभविग्रहाः श्रीदेवी भक्तिशालिनः गोमेतकस्य शालस्तु पूर्वशालसमाकृतिः तदन्तरे योगिनीनां भैरवाणाञ्च कोटयः कालसङ्कर्षणीमम्बां सेवन्ते तत्र भक्तितः गोमेतक मारुदयो मारुदयोजने उर्वशी मेनका चैव रम्भा चालम्बुषा तथा मञ्जुकोषा सुकेशी च पूर्वचित्तिर्कृताचिका कृतस्थला च विश्वाची पुञ्जिकस्तलया सह तिलोत्तमेदि देवानां वेश्या वेदा दृशोपराः गन्धर्वैः सहनव्यानि कल्पभृक्षमधूनि च पिबन्ध्यो ललितादेवीं ध्यायन्त्यश्च मुहुर्मुहुः स्वसौभाग्यविवृद्ध्यर्थं गुणयन्त्यश्च तन्मनुं चतुर्दशशुचोत्पन्ना स्थानेष्वप्सरसोऽखिलाः तत्रैव देवीं मर्चन्त्यो वसन्तिमुदिताशयाः अगस्त्य उवाच चतुर्दशापि जन्मानि तासामप्सरसां विभो कीर्तयत्वं महाप्राज्ञ सर्वविद्यामहानिधे हयग्रीव उवाच ब्राह्मणो हृदयं कामो मृत्युरुर्वी च मारुतः तपनस्य कराश्चन्द्रकरो वेदाश्च पावकः सौदामिनी च पीयषं दक्षकन्या जलं तथा जन्मनः कारणान्येदान्यामनन्ति मनीषिणः गीर्वाणगण्यनारीणां स्फुरत्सौभाग्यसम्पदां वेदा समस्ता गन्धर्वैः सार्धमर्चन्ति चक्रिणी किन्नरा सह नारीभिस्तथा किं पुरुषा मुने स्त्रीभिस्सह मदोन्मत्ता हीरकस्थलमाश्रिताः महाराज मंद्रजाध शेषकलम श्य गाय वर्दे कुंभसंभव त्रीरकक्ष्योनिया वज्रानाम नदीमुने मुने वज्रकारीडिता भासमाना तड़द्रुम वज्र वज्ररत्निखता वज्रद्रवमका सदा वहदी सिंधु परितस्तत्र पावनी भक्रये ललितापरमेश भक्त मानवोत्तम तेत उतकंवा वज्रूपलबरा दीर्घायुषश्च नीरोगा भवन्ति कलशोद्भव भण्डासुरेण गलिदे मुक्ते वज्रे शतक्रदुः तरयास्थिरे स्थिरे तपस्तेऽपि वज्रे शीं प्रतिभक्रिमान् तज्जलादुदिदा देवी वज्रं दत्त्वा बलद्वेषे पुनरन्तर्दधे सोऽपि कृतार्थस्वर्गमेयिवान् अथ वज्राख्यशालस्यान्तरे मारुतयोजने वैडूर्यशाल उत्तुङ्गपूर्ववद्गोपुरान्वितः स्थाली च तत्र वैडूर्य निर्मिता भास्वराकृतिः पादावासीनो ये ये श्री साधकाः ते सिद्ध सुखमे दुराः करकेटक श्रीदेव्यर्चन साधकामूर्तस्त वसंतिधुरा शहापदुशंख काक्षकूडश महाद्ंदो महाणा इत्येवमादयस्तत्र नागा नागास्त्रयोपि च बलीन्द्रप्रमुखानां च दैत्यानां धर्मवर्तिनां गणस्तत्र तथा नागै सार्धं वसति साङ्गनाः ललितामन्त्रजक्तारो ललिता शास्त्रीक्षिता ललिता पूजका नि वसंसुरभिन त्र वैदू्यक शिशिपाधसरा विमलासी सारे तो दिव्या वैदूल्यमिम्द ते शुक्रीडन्दितेनागा असुराश्च सहाङ्गनाः वैदूर्याख्यमहाशालान्तरे मारुदयोजने इन्द्रनीलमयशालश्चक्रवाल इवापरः तन्मध्यकक्षाभूमिश्च नीलरत्नमयी मुने भोग्यानि ये त्य मधुरा सरासी शिशिरा चाव्या वस्तूनी सरसान्य भूलोकगदा लितासाधकाशक्रनील कक्षाप्य वसंदी वै तत्र दिव्यानि वस्तूनि भुञ्जाना वनिताः सखाः पिबन्तो मधुरं मद्यं नृत्यन्तो भक्तिनिर्भराः सरस्वतेषु सिन्धूनां कुलेषु कलशोद्भवलतागृहेषु रम्येषु मन्दिरेषु महर्द्धिषु सदा जपन्तः श्रीदेवी पठन्तश्चापि तद्गुणान् निवसन्ति महाभागा नारीभिः परिवेष्टिताः कर्मक्षये पुनर्यान्ति भूलोके मनुषीं तनुं पूर्ववासनया युक्ताः पुनरर्चन्ति चक्रिणीम् पुनर्यान्द श्रीनगरे शक्रनीलमहास्थलीं तत्स्थलस्यैव सम्पर्काद्रागद्वेषसमुद्भवैः नीलैर्भावै सदा युक्ता वर्तन्ते मनुजा मुने ये पुनर्ज्ञानिनो मर्त्या निर्द्वन्द्वा नियतेन्द्रिया भ ते मुने विस्मयाविष्टात् संविशन्ति महेश्वरीम् इन्द्रनीलाख्यशालस्यान्तरे मारुदयोजने मुक्ताफलमयः शालः पूर्ववद्गोपुरान्वितः अत्यन्तभास्वराः स्वच्छा तयोर्मध्येस्तरीमुने सर्वापि मुक्ता खचिता शिशिरादिमनोहराः ताम्रपर्णि महापर्णि सदा मुक्ता फलोदका एवमाद्या महानाद्यः प्रवरन्ति महास्थले तासां तीरेषु सर्वेपि देवलोकनिवासिनः वसंतिपूर्वजनुषिश्रीदेवी मंत्र साधका पूर्वाद्यष्टुभागेशोकाच्रादिगोचरा मुक्ताल सेत संयुज्वान्क्ताशाल नील सेवाध्य देशतः। पुर्व भागे पूर्वभागे शक्रलोको वहोकभू याम्य भागे यमपुर त्र दंडधर प्रभु सर्व ललिता मंत्री तीव्रस्ववां आज्ञाधरोम भटैच्चिगुतुरोगम सार्धं नियमयत्येव श्रीदेवि समयम् गुहः कुहशक्तान्दुराचारान् ललिताद्वेषकारिणः कूडभक्तिपरान्मूर्खांस्तब्धानस्त्यन्तदर्पितान् मन्द्रचोरान्कुमन्त्रांश्च कुविद्यानकसंश्रयान् नास्तिकान् पापशीलांश्च वृथैव प्राणिहिंसकान् स्त्रीद्विष्ठाल्लोकविद्विष्ठान् विद्विष्ठान् हि पालिनः कालसूत्रे रौरवे च कुम्भज असिपत्रवने कोरे कृमिभक्षे प्रतापने लालाक्षेपे सूचिवेधे तथैवाङ्गारपादने एवमादिषु कष्टेषु नरकेषु खडोद्भव पादयत्याज्ञया तस्या श्री तस्याः श्रीदेव्याः स मखौजसः तस्यैव पश्चिमे भागे राक्षसं लोकमाश्रित्य वर्तते ललितार्चकः तस्य चोत्तरभागे दुद्द्वारयो रन्दस्यले वारुणं लोकमाश्रित्य वरुणे वर्तते सदा वारुण्यास्वादनोन्मत्तशुभ्राङ्गोच्छषवासनः सदा श्रीदेवतामन्त्रजापी श्रीक्रमसाधकः श्रीदेवतादर्शनस्य द्वेषिणः पाशबन्धनैः बद्ध्वा नयत्यथोमार्गं भक्तानां बन्धमोचकः तस्य चोत्तरकोणेषु वायुलोको महाद्वितिः तत्र वायुशरीराश्च सदानन्दमहोदयाः सिद्धा दिव्यर्षयश्चैव पवनाभ्यासिनो परे गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः यदैः सह तत्र श्रीमारुतेश्वरः सर्वाथा भिन्नमूर्तिश्च वर्तते कुम्भसम्भव इडाच पिङ्गला चैव सुषुम्नाथस्य शक्रयः तिस्रो मारुदनाथस्य सदा मधुमदालसाः ध्वजहस्तो मृगवरिवाहने महदिस्थितः ललिताय जनध्यानक्रमपूजनतत्परः आनन्दपूरिताङ्गीभिरन्याभिषक्तिभिर्वृतः स मारुतेश्वरश्रीमान् सदा जपति चक्रिणीं तेन सत्वेन कल्पान्ते त्रैलोक्यं सचराचरं परागमयतां नीत्वा विनोदयति तत्क्षणात् तस्य सत्वस्य सिद्ध्यर्थं तामेव ललितेश्वरीं पूजयन् भावयन्नास्ते सर्वाभरणभूषितः तल्लोकपूर्वभागस्ते यक्षलोके महाद्युतिः यक्षेंद्रो वसति श्रीमां तद्वारद्वन्द्वमध्यगः निधिभिश्च न वा कारैृद्धिवृद्ध्यादिशक्तिभिः सहितो ललिताभक्तान् पूरयन्धनसम्पदा यक्षीभिश्च मनोज्ञाभिरनुकूलप्रवृत्तिभिः विविधैर्मधुभेदैश्च सम्पूजयति चक्रिणीं मणिभद्रः पूर्णभद्रो मणिमान् माणिकन्धरः इत्येवमादयो यक्षसेनान्यस्तत्र सन्धि वै तल्लोकपूर्वभागे रुद्रलोको महोदयः अनर्घ्यरत्न खजितस्तत्र देवता सदैव मन्युना दीप्तः सदा बद्धमहे शुधिः स्वसमानैर्महासत्वैर्लोङ्कनिर्वाहदक्षिणैः अधिज्यकर्मकैर्दक्षाय षोडशावरणस्थितैः आवृत सततं वक्त्रा जपञ्चीदेवतामनुं श्रीदेवी ध्यानसम्पन्नश्रीदेवी पूजनोत्सुकः अनेककोटिरुद्राणीगणमण्डितपार्श्वभूः ताश्च सर्वाः प्रदीप्ताङ्ग्यो नवयौवनगर्विताः ललिताध्याननिरना सदा सवमदालसाः ताभिश्च सागं सश्रीमान्महारुद्रस्त्रिशूलभृद हिरण्यबाहुप्रमुष्यैरुद्रैरन्यैर्निषेवितः ललितादर्शनभ्रष्टानुद्धतान् गुरुधिता शूलकोट्यार्भीत्रो कडु तधूभृ प्रजाश्च विनाशयन धरो महावीरो ललिताज्ञा प्रपालक रुद्रलोके वर्तदे कुंभसंभव महारुद्रस्य तस्य हर्षे परिवारा प्रमाधिनः ये रुद्रास्थानसङ्ख्यादान् को वा वक्तुं पटुर्भवेद अधिभूम्यां तु सहस्राणां सहस्रशः दिवि येऽपि च सहस्रशः येषामन्निमिषश्चव येषां वाधास्तथेशवः येषां च वर्षमिषवः प्रदीप्ताः पिङ्गलेक्षणाः अर्णवे चान्दरिक्षे च वर्तमाना महौजसः जडावन्दो मधुस्मन्दो नीलग्रीवा विलोकिताः ये भूतानामधिभुवो विशिखाशक्कपर्दिनः ये अन्येषु विविध्यन्ति मात्रेषु पिबदो जनान् ये पथां रथकारुद्रा ये च तीर्थनिवासिनः सहस्रसङ्ख्या ये चान्ये सृकावन्दो निषङ्गिणः ललिताज्ञाप्रणेतारो दिशो रुद्रावितस्थिरे ते सर्वे सुमहात्मानः क्षणाद्विश्वत्रयीवहाः श्रीदेव्या ध्याननिषणा तान् श्रीदेवी मन्त्रजापिनः श्रीदेवतायां भक्ताश्च पालयन्ति कृपालवः षोडशावरणं चक्रं मुक्ताप्राकारमण्डले आश्रित्य रुद्रास्ते सर्वे महारुद्रं महोदयं हिरण्यबाहुप्रमुखाज्वलन्मन्युमुपासते इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने पुष्परागप्रकारादिभुक्ताकरान्त सप्तकक्षान्तरकथनं नाम त्रयस्त्रिंशोऽध्यायः ओ